श्रीमद्भागवद्महापुराणं सप्तं स्कन्धम् अस्य तुदशोऽध्यायः गृहस्य सम्बन्धि सदाचार्यधिष्ठिर् उवाच गृहस्थये तां पदविं विधिनायेन चाञ्जसा याति देवर्षे ब्रोहि मादृशो गृहमिमूषधिः गृहे स्ववस्वितो राजन्क्रिया कुर्वन् गृहोचिताः वासदेवार्पणं महामुनिन् शृण्वन् भगवतो भीक्ष्णं अवतारकथामृतं सद्धानो यथा कालमुपशान्तजनावृतः सत्सङ्गाच्छनकै सङ्गम् आत्मजायात्मजादिषु विमुच्यैन्मुच्यमानेषु स्वयं स्वप्नवधूस्थितः यावदर्थमुपासीनो देहे गेहे च पण्डितः विरक्तो रक्तवत्तत्र नृलोके नरतां दसे ज्ञातय पृतरौ पुत्रा भ्रातरसृहृदोपरे यद्वदन्ति यदिक्षन्ति चानुभूदेत निर्ममः दिव्यं भौमं चान्तरिक्षं वित्तमद्यत निर्मितं तत्सर्वमुपभुञ्जाना एतत् कुर्याश्वतो बुध यावद्भ्रियेत जठरं तावत् हि देहिनां अधिकं जोभि मन्येत सहस्तेनो दण्डमर्हति मृगोष्ट्रं खर्मर्काखूं शरीरशुखं खगमक्षिकाः आत्मनः पुत्रवत्पस्येतैरे सामन्तरं कियत् श्रिवर्गं नातिकृच्छेण भजेत गृहमेद्यपि यथा देशं यथा कालं यावद्देवोपपादितम् आस्वाघान्तेवसायिभ्य कामांसं विभजेद्यथा अप्ये कामात्मनोधारां नृणां स्वत्वग्रहूयतः जह्याजर्थेष्वप्राणान् हन्याद्वापितरं गुरुं तस्यां स्वस्त्वं तियां जह्याजर्थिन च जितोजितः कृम्विद्भस्मनिष्ठान्तं क्वेदं तुच्छं कलीवरम् स्वतदीयऋतिर्भार्या क्वायमात्मा न भयस्थतिः सिद्धै यज्ञावशिष्टार्थै कल्पये वृत्तिमात्मनः शेषे स्वस्त्वं त्यजन् प्राज्ञ पद्मीं महतां यात् देवान् नृसिन्नो निभृतं भूतानि पितृनात्मानमन्वहं स्वभृत्यागतवित्तेन यजेत पुरुषं पृथक् यधियात्मनोऽधिकाराद्याः सर्वा स्युर्यज्ञसम्पदः वेताग्निकेन विधिना अग्निहोत्रादिना यजे न अग्निमुक्तोऽयं वै भगवान् सर्वयज्ञभो यद्येतरः विसाराजन् यथा विप्रमुखे भूतै तस्माद्ब्राह्मणदेवेषु मृत्यादिशो यथा हृतः तैस्तैः कामै यजस्वैनं चैत्रङ्ग्यं कुर्यादा परं पक्षीयं मासि पौषपदे द्विजः श्राद्धं पित्रोर्यथा वित्तं तद्बन्धूनां च वित्तवान् अयने विश्वे कुर्यान्द्यतिपाते दिनक्षये चन्द्रादित्योपरागारागे च द्वादशी श्रवणेति च माघे च सित्सप्ताम्यां मघाराकासमागमे राकया चानुमत्या वा मासं मार्चच्छाळीयुतान्नपि द्वादश्यामनुराधा स्यात् श्रवणं श्रेस्रादुत्तराः त्रिषिस्वेकादशी वासु चर्मक्षोणयोगयुग्धं त एते श्रेयसकालादृणां श्रेयो विवर्धनाः कुर्या सर्वात्मनैतेषु श्रेयो मोघं तदायुष येषु स्नानं जपो होमो देवद्विजार्चनम् देव द्विजार्चनं पितृदेवनृभूतेभ्यो यद्दत्तं तद्धनस्वरं संस्कारकालो जाजा या जा अपत्यास्यात्मनस्तथा प्रेतसंथामृताहश्च कर्मण्यभ्योदये नृप अथ देशान् प्रवक्ष्यामि धर्मादिश्रेय आवाहान् स वैपुण्यतमो देश सत्पात्रं यत्र लभ्यते बिम्बं भगवतो यत्र सर्वमेतच्चराचरं यत्र ह ब्राह्मणकुलं तपो विद्यादेहान्वितं यत्र यत्र हरिरर्चा सहदि सहस्रेयतां पदं यत्र गङ्गादयो पुराणे सुचभिश्रुताः सरांसि पुस्करादीनि क्षेत्राण्यर्हा कुरुक्षेत्रं गयशिर प्रयागपुलहाश्रमः नैमिषं फाल्गुणं सेतुप्रभासुत कुशस्थली द्वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा नारायणाश्रमो नन्दासीतारामाश्रमादयः सर्वे कुलाचला राजन्महेन्द्रं मणयादयः एते पुण्यतमादेशा हरिरचाश्रिताश एतान् तेषां निसेवेतश्रेयस्कामो ह्य भीक्षण धर्मो ह्यत्रैहितपुंसां सहस्राधिफलोदयः पात्रं त्वत्र निरुक्तं वै कविभिः पात्रभित्तमै हरिरे वै कौरवी स यन्वयं वै चराचरं देवस्य हर्षस्सु वै सत्सु वत पात्रतयाचितः जीवराशिभिराकिनम् आण्डकोशाङ्घृपो महान् तन्मूढत्वा दद्युतेज्या सर्वजीवात्मतर्पणं पुराण्डनेन सृष्टान्नेन तिर्यगृसीदेवताः शेते जीवेन रूपेण पुरेषु पुरुषो शशौ तेष्वेषु भगवान् राजन्तारतम्येन वर्तते तस्मात्पात्रं हि पुरुषो यावनात्मायतेयते देष्वा तेषां मिथोणवज्ञानात्मतां नृप तेतादिसौ हरे हिरर्चा क्रियायै कविभिः कृता ततोर्चायां धरीं केचिन् स श्रद्धाय स पर्ययाम् उपासतुपास्तापि नार्तदा पुरसद्विषां वेदं हरेस्तनुम् नन्वस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः पुनन्तः पादरजताशलोकिं दैवतं मत् श्री श्रीमद्भागवते महाप्राणे पारभिंशां चैतायां सप्तमस्कन्दे सदाचारनिर्णयोनां चतुर्दशोऽध्यायः